शमीक उवाच नमे प्रियं प्रियम् कृतम् तात नैष धर्मस्तपस्विनाम् वयम् तस्य नरेन्द्रस्य विषये निवसामहे न्यायतो रक्षितास्तेन तस्य शापम् न रोचये सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा क्षन्तव्यम् पुत्रधर्मो हि हतो हन्ति न संशयः यदि राजा न संरक्षेत् पीडा नः परमा भवेत् न चरितुम धर्मे पुत्र यथा सुखं। सुखम रक्ष्ययंताजर्म दृष्टि चरामो विपुलम धर्मेंषा भागोस्ति धर्मतःथ वर्तमान राज्यमें वि परीक्षित्शेषेण यथा से प्रताम रक्षत्यमस्तथा रक्षित प्रजा विभो तेने क्षुदितेनाद्य श्रान्ते न च तपस्विना अजानता कृतम् मन्ये मम अराजके जनपदे दोषा जायन्ति वै सदा उद्धृत्तम् सततम् लोकम् राजा दण्डेन शास्तिवै, वै दण्डात् प्रतिभयम् भूयः शान्तिरुत्पद्यते तदा नोद्विग्नश्चरते धर्मे नोद्विग्नश्चरते क्रियाम् राज्ञा प्रतिष्ठितो धर्मो धर्मात् स्वर्गः प्रतिष्ठितः राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः ओषधिभ्यो मनुष्याणाम् धारयन् सततं हितम् मनुष्याणां च योधाता राजाराज्यकरः पुनः दशश्रोत्रीयसमो राजा इत्येवं मनुरब्रवीत् तेनेह क्षुदितेनाद्य श्रान्ते न च अजानता मन्ये कृतं मन्ये व्रतमेतदिदं मम कस्मादिदं त्वया बाल्यात् सहसा कृतं न ह्यार्हति नृपश्यापमस्मत्तः पुत्र सर्वथा इति श्रीमहाभारते आदिपर्वणि आस्तिकपर्वणि परिक्षिच्छापे एकचत्वारिंशोऽध्यायः